गणेशपुराणं क्रीडाखण्डम् अध्यायं 117. एण्ड् सेवेन्टीन् क उवाच सिन्धुस्तल्पगदश्चिन्तामवापमहतीं तदा अग्निसन्तप्तहृदयो विचारनान्वपद्यत निर्हर्षो म्लानवदनो निस्तेजः निष्कलोऽपि तद उग्रात्मजा दुर्गा लावण्यलहरी शुभा चिन्ता स्याविषदग्धं तम् श्रुत्वा गान्मञ्जकस्थितम् असङ्ख्यभूषणम् यां स्यात् कबरीभादिमस्तके कस्तूरी तिलकम् यस्या लाडे भादिसुन्दरम् कण्ठे हारं कडौ काञ्चिबिभ्रतीं रत्नसंयुधां सर्वालङ्कारसंयोक्तां सर्वावयवसुन्दराम् आगतां तु निरीक्ष्यैव मञ्चकाभ्याशमुत्सुकाम् बहि तत्सेवकायातास्ततः सा पदिमब्रवीद दुर्गोवाच किं चिन्तां कुरुषे स्वामिन्यद्भाव्यं तद्भविष्यति ईश्वरस्य वशे लोको न स्वतन्ध्रकदाचन सर्वेषां मानसं त्वं किमुद्वे जयसि मेऽपि च को हे दुस्ते वद विभो तदो युक्तिं वदामिते क उवाच प्रियावाक्यं समाकर्ण्य गण्डकीनायकस्तदा सावधानमनभूत्वा वृत्तान्तं तामधा ब्रवीद सिन्धुरुवाच किं वदामि प्रिये श्लाक्ये मनःखेदकरं परम् युद्धतो मेरणे कर्णौ मयूरेशेन साधितौ सप्तकोडिमिदासेन निहता पौरुषेणः स्कन्धादयो महावीराः पदिदाशरवृष्टिभिः अकस्मान्मेहदौ कर्णौ त्रिशूलं प्रेष्य शत्रुणा आच्छाद्यमुखमायादो वाससा निजमन्दिरं येनो वा ये वधस्यात्तं वधस्व मे दुर्गोवाच वीरधर्मकृदः सम्यग् न यशाप्य स्वामी गोब्राह्मणसुरदा तवेशाच क जाये जायते ध्यान स्मरण पूजनादी देरीद्रादिस्ता नज स्थिरा चमसूदु शुभाशुभल तत्वयाभष्ट सिम धेनोरीवाभवद अंगुरो जायतेबी अशुभात् कर्मणो दुःखं सुखं स्याच्छुभकर्मणः अधः सन्तः प्रकुर्वन्ति शुभं कर्म सदादराद हितं च सर्वजन्तूनां कायेन मनसा गिरा भवता पुरुषार्धेन पीडितास्ते सुरर्षयः पुरुषार्थः स विज्ञेयो यश्चतुर्णां हि साधकः यन्मनो नार्धलुब्धं स्यात्परदारेषु न क्वचित् स एव पुरुषार्थस्याश्चानिन्द्यं न निन्दति दृढो धर्मपरायणः समः सर्वेषु भूतेषु पुरुषार्थः स गम्यते स्वामिन्मे परमं वाक्यं शृणुते हितकारकम् अदुष्टवाक्सत्यशीलस्वगुणानामकीर्तकः परोपकरणे शक्तः परपै शून्यवर्जितः तत् कुरुष्व महाभाग मम प्रीतिं यदीच्छसि मोचयस्व सुरान् सर्वान् प्रबद्धान् शक्रसंयुतान् प्रयास्यदिमयूषोऽखिलोकप्रपालकः वत्साव्यसुसुखं स्वामिन्नान्यधातु सुखं भवेद क उवाच एवं वाक्यामृदं तस्यास्तदभूद्विषसन्निभं मुमूर्षोरौषधं यद्वद्ग्रहरोगाप्लुतस्य क्रोधसंरक्तनयनो दुर्गां तां सिन्धुरब्रवीद न दद्रे हृदि तस्याः स उपदेशं हितावहं सिन्धुरुवाच सम्यगुक्तं त्वया भद्रे लोकनिन्दाकरं वचः चातुर्यं तव विज्ञातं कार्याकार्यं विदामया न शत्रुं भजदे रिपुर्मानपरायणः नारभेत्कृत्यमन्यायमारब्धं चेन्न त्यजेत् तदो दुःखं सुखं वा स्यादयशो यश एव च लाभो वाप्यथवा लाभो जीवनं मृत्युरेव वा पूर्वं भद्रे मया सन्धिसाम्नाथेन न वै कृतः इदानीं भविता यद्यतद्भवत्येव सर्वथा पूर्वमेव हि यजन्तोर्लिखितं साध्वसाधु वा कश्चिन्नपुरुषार्थेन कर्तुं शक्तोऽन्यथा सति प्रने स्वर्गो धक्या प्रणेमृद स्वर्गोध्यापत्र या दस्य शरण श्रारेयशो नरक पूर्वज सहित संशय जा तम मयूरशम देवदेवं जगद्गु सम्भूतं मम नाशाय रावणे राघवं यथा पादयिष्ये शिरोस्याकमिधि मे निश्चितामती त्यजन्ति जीवितं शूरानाभिमानं कदाचन न मेऽस्तिगणना शुभ्रु कृतान्तस्यापि कर्षि तत्र का गणनान्येषां लज्जामे कर्णधकृदा क उवाच एवमुक्त्वा भूषणानि वस्त्राणि च दधारसः केयूरं मुकुडं रत्नयुक्तं हारं च कुण्डले तूणौख्गं च केडं च चा चापं सज्जं च चा त्रिकाम् आच्छाद्यकर्णौ रौग्नीयवस्त्रेणोष्णिषगेन च आययावुपविष्टः स भद्रासनमुत्तमम् इति श्रीगणेशपुराणे क्रीडाखण्डे दुर्गावाक्यं नाम सप्तदशाधिक शततमोऽध्यायः ओम्